हरि ओं श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे तृतीयस्कन्धे नवमोऽध्याय नारद उवाच गुणानां लक्षणं तात भवता कथितं किल न तृप्तोऽस्मीपि बन्मिष्टं तन्मुखास्त्रं प्रच्युतं रसं गुणानां तु परिज्ञानं यथा वेदन येनाहम् परमाम् शान्तिम् अधिगच्छामि चेतसि व्यास उवाच इति पृच्छतु पुत्रेण नारदेन महात्मना उवाच च जगत्कर्ता रजोगुणा समुद्भव ब्रह्मोवाच शृणु नारदवक्ष्यामि गुणानाम् परिवर्णनम् सम्यग्नाहम् विजानामि यथा महती सत्त्वम् तु केवलम् नैव कुत्रापि परिलक्ष्यते मिश्रीभावसु तेषां वै मिश्रत्वम् प्रतिभाति वै यथा काचित् वरा नारी सर्वभूषणभूषितायुता कामम् भर्तु प्रीतिकरी भवेत् मातापितुर तथा सैव बन्धुवर्गस्य प्रीतिना दुःखम् सपत्नीषु जनयेत्यपि सैव एवं सत्वेन तेनैव श्रीतम्भापादितेन च रजसस्तमस इत्यैव जनिता वृत्तिरन्यथा रजसा श्रीकृतेनैव तमसा च तथा पुनः अन्योन्यस्य समायोगात् अन्यथा प्रतिभाति वै अवस्थानात्वभावेषु च लक्ष्यन्ते विपरीतानि योगान् नार कुत्रचित् यथा रूपवती नारी यौवनेन विभूषिता लज्जामाधुर्ययुक्ता च तथा विनाय संयुता कामशास्त्रे विधिज्ञा च पिसम्मता। भर्तु भक्तु प्रीतिकरे भूत्वा स पत्नीनां च दुःखदा मोहदुःखस्वभावस्था तत्र तत्त्वस्थेत्युच्यते जनै तथा सत्त्वम् विकुर्वाणम् अन्यभावम् विभाति वै चौरै उपदृतानामी साधूनाम् सुखदा भवेत् दुःखा मूढा च दस्यूनाम् चैव सेना तथा गुणा विपरीत प्रतीतिम् वै जनयन्ति यथा न दुर्दिनम् दातम् महामेघगणावृतम् विद्युत्स्थनितसंयुक्तम् युक्तं किञ्चद्भूमिम् प्रवर्षद् वै तमोरूपम् उदाहृतम् यदेतत्कर्षकाणाम् वै तदेव अतीव दुर्दिनम् बीजोपस्करयुक्तानाम् सुखदम् प्रभवत्युत विशेषतः तृणकाष्ठ गृहीतानां दुःखदम् गृहमेधीनाम् क्रोशित भदृकाणां वै मोहदम् प्रवदन्त्यपि स्वभावस्था गुणा सर्वे विपरीता विभान्ति वै, वै। लक्षणाने पुनस्तेषां तृणुपुत्र ब्रवीम्यहम् लघुप्रकाशकम् सत्तं निर्मलं विशदं सदा शदाङ्गानि लघून्येव नेत्रादीनिन्द्रियाणि च निर्मलं च तथा चेतो गृह्णाति तदा सत्वं शरीरे समुत्कटम् मन्तव्यञ्चृम्भां स्तम्भं च तन्द्रां चलञ्च पुनः यदा तदुत्कटं जातं देहे यस्य च कस्यचित् कर्तुं गन्तुं ग्रामान्तरं तथा चलचित्रश्च सोत्यर्थं विवादे चोद्यतस्तथा गृहम् आवरणं कामं तमो भवति तं यदा तदाङ्गानि गृण्यासु प्रभवन्त्यावृतानि च इन्द्रियाणि मनश्शून्यं निद्रां नैवाभिवाञ्छति गुणानां लक्षणान्येवं विज्ञेया नियनाद विभिन्न लक्षणा प्रोक्ता पिता गुणात्रय कथम् एकत्र संस्थाने कार्यम् कुर्वन्ति शाश्वतम् परस्परम् मिलित्वा हि विभिन्ना शत्रवक्य एकत्रस्थाम् कथम् कार्यम् गुणास्ते दीपवृत्तयः प्रदीप्तश्च यथा कार्यम् प्रकृत्यर्थदर्शनम् वार्तितैलम् यथाचिश्च विरुद्धं हि तथा तैलं अग्निर्नाशसङ्गतम् तैलं वर्ति विरोध्येव पावकोपी परस्परं। एकत्र स्थापदार्थानां कुर्वन्ति प्रदर्शनम् नारदोवाच एवं प्रकृतिया प्रोक्ता गुणा सत्यावती सुत विश्वस्य कारणं पूर्वं यथाश्रतं व्यास इत्युक्तम् नारदे नाथ मम सर्वम् सविस्तरम् गुणानाम् लक्ष्मणम् सर्वम् कार्यम् चैव विभागचः अराध्या परमा यया सर्वमिदम् तदम् स निर्गुणा चैव कार्यभेदे सदैव अकर्ता पुरुष पूर्णो निरीह परमोऽव्यय करोत्येषां हमाय विश्वं सर्वसदात्मकम् ब्रह्मा विष्णु तथा सूर्य सूर्यश्चन्द्रशचीपतिः अश्विनोमष्टा कुबेरो यादशां पतिः वह्निर्वायुस्तथा पूजा सेनानिश्च विनायकः सर्वे शक्ति युधाशक्ता कर्तुं कार्याणि स्वानि च अन्यथा चेप्यशक्ता वै प्रसन्धितुम् मनीकरा सा चैव कारणं राजन् जगतः परमेश्वरी समाराधय ताम्भूप कुरु यज्ञम् जनाधिपय कोयनम् पर्या भक्त्या तस्या एव विधानतः महालक्ष्मी महाकाली तथा सरस्वती सर्वभूतानां सर्वकारम् <coughs> सर्वकामार्थदा शान्ता सुखसेव्यादयान्विता नामोच्चारणमात्रेण वाञ्छितार्थ फलप्रदा देवैराराधिता पूर्वम् ब्रह्मविष्णु महेश्वरै मोक्षकामयै च विधयि तापसीर्विजितात्मभिः अस्पष्टम् अपि यन्नाम प्रसङ्गे नाभिभाषितम् ददाति वाञ्छितानर्थान् दुर्लभानपि सर्वथा अयि चै भया तेन दृष्ट्वा व्याघ्रादिकम् वने बिन्दुहीनमपि चुक्तम् वाञ्छितम् प्रददाति वै तत्र सत्यव्रतस्यैव दृष्टान्तो नृपसत्तम प्रत्यक्ष एव चास्माकम् मुनीम् भावितात्मनाम् ब्राह्मणानाम् समाजेषु तस्योदाहरणम् बुधै कथ्यमानम् भयराजन् वित्तरम् अनक्षरो महामूर्खो नाम्ना सत्यव्रतो द्विजय कृत्वाक्षरं गोलमुखात् समुच्चार्य स्वयं ततः बिन्दुहीनं प्रसङ्गेन दातोसो विबुधोत्तमः ऐकारोच्चारण देवी तुष्ट भगवती तदा चकार कविराजं तं दयार्धना परमेश्वरी इति श्रीमद्देवी भागवते महापुराणे अष्टादशसहस्रयाम् सहितायाम् तृतीयस्कन्धे गुणपरिज्ञानवर्णनम् नाम नवमूर्त्याय हे श्रीजगदम्बिकायार्पणमस्तु